नारदपुराणम् पूर्वार्धम् अध्यायम् 119 अण्ड् सनातन उवाच अथ प्रवक्ष्यामि सम्प्रवक्ष्यामि दशम्या वैव्रतानि यानि कृत्वा नरो भक्त्या धर्म राजप्रियो भवेद् चैद शुक्लदशम्याम् तु धर्मराजम् प्रपूजयेत् तत्कालसम्भवै पुष्पैफलैर्गन्धादिभिष्टधा सोपवासो वैकभक्तो भोजयित्वा द्विजोतवान् चतुर्दश ततस्तेभ्य शक्र्य दद्या च दक्षिणान् एवं य कुरु देवी प्रधर्म राजप्रभोजनं स धर्मस्याज्ञा या गच्छे वै दशम्य माधवे शुक्ले विष्णुमभ्यर्च्यमानवः गन्धाद्यैरुपचारैश्च श्वेदपुष्पैः सुगन्धिभिः शतं प्रतिक्षणा कृत्वा वि संभोज्य यत्नदः लभते वैष्णवं लोकम् नात्रकार्या विचारण ज्येष्ठे शुक्लदशम्यां तु जाह्नवीसरितां वरा समायाता धरां स्वर्गात् तस्मात् सा पुण्यदा स्मृता ज्येष्ठशुक्लदलं हस्तो बुधश्च दशमीतिधिः गरानन्दव्यदीपाधा कन्येन्दु पृषभास्कराः दशयोगसमाख्यादो महापुण्यतमो द्विज हरदे दशपानि तस्माद् दश हर स्मृदः अस्याम् यो जाह्नविप्राप्य स्नादि सम्प्रीतमानसः विधिना जाह्नवितो ये सयादि हरिमन्दिरम् पुन्या पुण्यामन्वाधिकैः स्मृदा तस्यां स्नानं जपोदानं ओमो वा स्वर्गतिप्रदाः श्रावणे शुक्लदशमी सर्वासा परिपूर्तिदा अस्यां शिवार्चनं शस्तं गन्धाद्यैरुपचारकैः तत्रोपवासो न कृतं वा द्विजानां भोजनं जपः हेम्नो दानज धेन्वा धे सर्वपापप्रणाशनम् अधो नभस्य शुक्लायां दशम्यां द्विजसप्तम व्रतं दशावताराख्यम् तत्र स्नानं जलाशये कृत्वा सन्ध्यादिनियमं देवशिपितृदर्पणं ततो दशावतराणि समभ्यर्चेत् समाहितः मत्स्यं गोमं वरासं च नरसिंहं त्रिविक्रमं रामं रामं च कृष्णं च बौद्धं कल्किनमेव दशमूर्तिस्तु सौवर्णि पूजयित्वा विधानतः दशभ्यो विप्रवर्येभ्यो दद्या सत्कृत्य नारद उपवासं चैकभक्तं कृत्वा सम्भोज्य वा ढवान् विसृज्य पश्चाद्भुञ्जेदस्वयं स्वेष्टैः समाहितः भक्त्या कृत्वा व्रतं त्वे दद्भुक्त्वा भोगानि होत्तमान् विमानेन व्रजे दन्ते विष्णुलोकं सनातनम् आश्विने शुक्लदशमीविजया सा प्रकीर्तिता चतुर्गोमयपिण्डानि प्राधर्ण्यस्य गृहाङ्गणे चक्रवालस्वरूपेण तन्मध्ये रामलक्ष्मणौ तदा भरतशत्रुघ्नौ पूजये चतुरोपिः सपि धाना सुभातृषु गोमयेषु चदसृष्टा खिन्नं धान्यं सरौप्यं तु धृत्वा दौतां शुकावृदं पितृमातृभातृपुत्र जाया भृत्यसमन्वितं सम्भुज्यं गन्धपुष्पाद्यैर्नैवेद्यैश्च विधानदः नमस्कृत्यादपुञ्जीदद्विजान् सम्भोज्य पूजितान् एवं कृत्वा विधानं तु नरो वर्षं सुरवान्विधः धनधान्यसमृद्धश्च निश्चितं जायते द्विजा अथा पराह्णसमये न वम्यां सन्निमन्त्रितां पूर्वदिक्षु शमीं विप्र गत्वा तन्मूलजां मृदं गृहीत्वा स्वगृहं प्राप्य गीतवादित्र निःस्वनैः सम्पूज्यतां विधानेन सज्जीकृत्य स्वकं बलं निर्गद्य पूर्वद्वारेण ग्रामात् बहिरनाकुलः तदशत्रुप्रतिकृतिं निर्मितां पत्रकादिभिः मनसा कल्पितां वा विस्वर्णं पुं र वंशरेण वै वेध्येदिशं प्रेदप्राप्नुया स्वब्रंशि एवं कृतविधिर्वाभिचेद्वाशत्रुनिग्रहे यशैवं दशमी विप्रविधिना चरिदा सदा धनं जयं सुजाश्वं प्यजाविकं दद्यादिकशरीरान्ते स्वर्गतिं चापि नारदा दशम्यां कार्तिकाः कार्तिके शुक्लैः सार्वभौमव्रतं चरेध कृतोपवासो वैकाशीनिशीथे पूगपूपकादिभिः दश दिक्षु बलिं दद्यात् गृहद्वापि पुरात् बहिः मण्डलेष्टदले क्षप्ते गोविलिप्तधरातले मन्त्रैरेभिर्द्विजश्रेष्ठ गणेशाधिकृतार्चनः व्यो मे पूर्वकदः पाप्मा पापके नेघकर्मण तमिन्द्रो देवराजोऽद्यानाश यत्त्वखिलेष्टतः व्यो मे वह्निगदः पाप्मा पापके नेखकर्मण तेजो राजोदवह्निस्तं नाशय तु अखिलेष्टदः यो मे दक्ष गत पाप् मा पापगेनेहकर्मणा तं यमप्रेध राजो वै नाशय तु अखिलेष्टदः यो मे नै हृदि गाप् मा रक्षो राजो न हृदिस्तं तु अखिलेष्टदः यो मे पश्चिमः पाप्मा पापकेनेहकर्मणा याध पदिस्तं वरुणो नाशयत्त्वखिलेष्टदः व्यो मे वायुगत पाप्मा पापकेनेहकर्मणा वायुस्तं मृतं राजो नशयत्त्वखिलेष्टदः व्यो मे सौम्यगतः पाप्मा पापकेनेहकर्मणा सोमस्तमृक्ष यक्षेशो नाशयत्त्व अखिलेष्टदः व्योम ईषगदः पाप्म पापके नेहकर्मणा ईशानो भूतनादस्तं नाशयत्त्व अखिलेष्टदः व्योमम् ऊर्ध्वगदः पाप्म पापके नेहकर्मणा ब्रह्म प्रजापदीशस्थं नाशयत् अखिलेष्टदः यो मे धस्थितः पाप्मा पापकेनेहकर्मणा अनन्दो नागराजस्तं नाशयत् अखिलेष्टदः इत्येवं दिक्षु दश बलिं दत्त्वा समाहितः क्षेत्रबालाय तद्बाह्ये क्षिपे बलिमदधृदः एवं हृदविधिशेषं निशायां निनयेत्सुभिः गीदयिषु मङ्गलप्रायैस्तव पाठैर्जपादिभिः प्रदर्शनत्वा समभ्यर्च्य लोकपालान् द्विजोत्तमान् द्वादशाभ्यर्च्य सम्भोज्य शक्तितो दक्षिणान्धेद युद्धं कृत्वा व्रतं विप्रभोगान् भुक्तैः काञ्चुभान् युगं स्वर्गसुखं भुक्त्वा सार्वभौमो नृपो भवेद् मार्गशुक्लदशम्यां तु चरेदारोग्यकं व्रतं गन्धाद्यैरार्चयद्विप्रान्तशताचरणोदकम् पीत्वा दक्षिणां दत्त्वा विसुजेदेकभोजनम् एतत् कृत्वा व्रदं विप्रह्यारोग्यं प्राप्य भूदले कर्मराजप्रसादेन मोददे दिवि देववाद पौषे दशम्यां शुक्लायां विश्वे देवान् समर्चयेद ऋदुं सत्यं कालं कामं मुनिं गुरुं विप्रं रामं च दशदाखवस्तान् समन्विधः स्वापयित्वा दर्भमयानासनेषु च संस्थितान् कण्ठैर्धूपैस्तदाधिपैर्नैवेद्यैश्चाभि नारद प्रत्येकम् दक्षिणाम् गत्वा प्रणयत्य विसर्जयेद् दक्षिणां तां तिविजाग्रेभ्यो गुरवेव समर्पयेद् एवम् कृतविधिश्चैकभक्तो भोगीवृती भवेत् लोकद्वयस्य विप्रर्षे नात्रकार्याविचारणात्माकशुक्लदशम्यां दुः सोपवात्सो जितेन्द्रियः देवा देवां न ना ना गिरसो नाम दश सम्यक् समर्चयेद कृत्वा स्वर्णमयन्विप्र गन्धाद्यैरुपचारकैः आत्माख्यायुर्मनो दक्षो मदप्राणस्तथैव च बर्ह्येष्मांश्च विविष्टाश्च गविष्टश्च दसत्यश्च तेजश्च विप्रान् भोजयित्वा मधुरान्येन नारद मूर्तितेभ्य प्रदद्याता स्वर्ग लोकाप्तये क्रमाद् अन्ध्य शुक्लदशं व्याब्दो चतुर्दशं यमान्यजेद् यमश्च धर्मराजश्च मृत्युश्चैवान्तकस्तधा वैवस्वतश्च कालश्च सर्वभू दक्षयस्तधा औदुम्बरश्च दघ्नश्च द्वौ नीलपरमेष्ठिनौ मृगोधरश्च चित्रश्च चित्र गुप्तश्च दुर्दश गन्धाद्यैरुचारैश्च समभ्यर्थ्याधतर्पयेद् तिलाम्बुमिश्रां जलिभिर्दर्भैः प्रत्येकशस्त्रिभिः ततश्च दध्या सूर्यार्घं ताम्रपात्रेण नारद रक्तचन्दन सन्दन सम्मिश्र तिलाक्षतयवाम्बुभिः यै सूर्यसहस्रांशो तेजोराशे जगत्पदे गृहाणार्घ्यमया दत्तम् भक्त्या मामनुकम्पय इति मन्त्रेण दत्त्वार्क्यम् विप्रान् भोज्य चतुर्दश रौप्यां सुदक्षिणं दत्त्वा विसृज्यास्नीद च स्वयम् एवं कृतविधिर्विप्रधर्मराजप्रसादः भुक्त्वा भोगांश पुत्रार्था नैहिकान् देव दुर्लभान् विमान विमानवरमात्ताय देकान्ते विष्णुलोकभाक् इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने दशमी द्वादशमासस्थितदशमीव्रतनिरूपणं नामैकोन विंशत्यधिकशततमोऽध्यायः ओ